अथ षट्चत्वारिंशः सर्गः हतेषु तेषु पुत्रेषु दितिः परमदुःखिता मारीचङ्कश्यपम् नाम भर्तारमिदमब्रवीत् हतपुत्रास्मि भगवन्स्तप पुत्रैर्महाबलैः शक्रहन्तारमिच्छामि पुत्रम् दीर्घतपोर्जितम् साहन्तपश्चरिष्यामि गर्भम् मे दातुमर्हसि ईश्वरम् शक्रहन्तारम् त्वमनुज्ञातुमर्हसि तस्यास्तद्वचनम् श्रुत्वा मारीचः कश्यपस्तदा प्रत्युवाच महातेजादितिम् परमदुःखिता एवम् भवतु भद्रम् ते शुचिर्भवतपोधने जनयिष्यसि पुत्रम् त्वम् शक्रहन्तारमाहवे पूर्णे वर्षसहस्रे भविष्यसि पुत्रम् त्रैलोक्य हन्तारम् मत्तस्त्वम् एवमुक्त्वा महातेजाः पाणिना सम्ममार्जता तामालभ्यततः स्वस्ति इत्युक्त्वा तपसे ययौ गते तस्मिन्नरश्रेष्ठजतिः परमहर्षिता कुशप्लवम् समासाद्य तपस्तेऽपे सुदारुणम् तपस्तस्याम् हि कुर्वत्याम् परिचर्याम् च कालः सहस्राक्षो नरश्रेष्ठपरयागुणसम्पदा अग्निम् कुशान् काष्ठमपः फलम् मूलम् तथैव च न्यवेदयत्सहस्राक्षो यच्चान्यदपि काङ्क्षितम् गात्रसम्वाहनैश्चैव श्रमापनयनैस्तथा शक्रः सर्वेषु कालेषु दितिम् परिचचारः पूर्णे दशो नेरघुनन्दना दितिः परमसंहृष्टा सहस्राक्षमथा ब्रवीत् तप्चरिया वर्षा दश वीर्यता अवशिषा भद्रं ते भ्रातरम द्रक्ष्यसें तमहम धा जोत्सुक्यजय भोक्ष्यसी विज्वरा याचिते न सुश्रेष्ठ तव महात्म बार वर्ष मम दत्त सुत इत्युक्त्वा च प्राप्ते मध्यम् दिनेश्वरे निद्रयापहृता देवी पादौ कृत्वा थशीर्षतः दृष्ट्वा तामशुचिम् कृतमूर्धजा शिरस्थाने कृतौ पादौ जहास च मुमोद च तस्याः शरीरविवरम् प्रविवेशपुरन्दरः गर्भम् च सप्तधारामचिच्छेदपरमात्मवान् भिद्यमानस्ततो गर्भो वज्रेण शतपर्वणा रुरोदसुस्वरम् राम ततो दितिरबुध्यत मारुदो मारुदश्चेति गर्भम् शक्रोऽभ्यभाषत विभेद च महातेजारुदन्तमपि वासवः न हन्तव्यम् न हन्तव्यमित्येवम् दितिरब्रवीत् निष्पपात अशुचिर्देवि सप्तासि पादयोः कृतमूर्ध तदन्तरमहम् लब्ध्वा शक्रहन्तारमाहवे अभिन्दम् सप्तधा देवि तन्मे त्वम् क्षन्तुमर्हसि इत्यार्षे श्रीमद् वाल्मीकिये आदिकाव्ये बालकाण्डे षट्चत्वारिंशत् सर्गः